अथ पञ्चदशाधिकद्विशततमोऽध्यायः वैशम्पायनुवाच ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभ अभ्यगच्छत्सु शोभितानि तपस्विभिः वर्जयन्ति स्म तीर्थानि तत्र पञ्चस्म तपस्विभिः अगस्त्यतीर्थम् सौभद्रम् पौलोमम् च सुपावनम् कारन्धमं प्रसन्नं च हयमेधफलं च तत् भारद्वाजस्य तीर्थं तु पापप्रशमनं महत् एतानि पञ्चतीर्थानि ददर्श कुरु सत्तमः विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः तपस्विनस्ततोऽपृच्छत् प्राञ्जलिः तापसा ऊचुः ग्राहाः पञ्चवसन्त्येषु हरन्ति च तपोधनान् तत एतानि वर्ज्यन्ते वैशम्पायनवाच तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः जगामतानि तीर्थानि द्रष्टुं सत्तमः ततः सौभद्रमासाद्या महर्षेस्तीर्थमुत्तमम् विगाह्य सहसा स्नानं चक्रे परन्तपः अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् जग्राहचरणे ग्राह कुन्तीपुत्रम् धनञ्जयम् सतमादाय कौन्तेयो विस्फुरन्तं जलेचरं चरम् उदतिष्ठन् महाबाहुर्बलेन बलिनां वरः उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना बभूवनारी कल्याणी सर्वाभरणभूषिता दीप्यमाना श्रिया तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् कावै त्वमसि कल्याणी कुतो वासि जलेचरी किमर्थं च महत्पापम् इदं कृतवती पुरा वर्गोवाच अप्सरास्मि महाबाहो देवारण्यविहारिणी इष्टा धनपतेर्नित्यं वर्गा महाबला मम सख्यश्च तस्रोऽन्याः सर्वाः कामगमाः शुभाः ताभिः सार्धम् प्रयातास्मि लोकपालनिवेशनम् ततः पश्यामहे सर्वा ब्राह्मणम् संशितव्रतम् रूपवन्तमधियानम् एकमेकान्तचारिणम् तस्यैव तपसा राजं तद्वनम् तेजसा व्रतम् आदित्य तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतमुत्तमम् अवतीर्णास्मतं देशं तपो विघ्नचिकीर्षया अहं च सौरभेयी च समीचीबुद्बुदालता यौगपद्येन तं विप्रम् अभ्यगच्छाम भारता गायन्त्योऽथः सन्त्यश्च लोभयित्वा तं द्विजम् स च मनोवीरकथञ्चन ुपितोऽस्मासोर्षभातं समाः इति श्रीमहाभारते आदिपर्वणि अर्जुन वनवासपर्वणि तीर्थग्राहविमोचने पञ्चदशाधिकद्विशततमोऽध्यायः